शिरो si bon. si bon. si bon. si bon. ्यहङ्कारचित्तानिना न च श्रोत्रजिह्वे न च नेत्रे न च व्योमभूमिर्न तेजो न वायुः चिदानन्दरूप शिवोऽहं शिवोऽहं चिदानन्दरूप शिवोऽहं शिवोऽहम् Mohan um. न च प्राणसंज्ञो न वै पञ्चवायु न वा सप्त धातुर्नव पञ्चकोशा <tinyan> न वाक्पाणिपादं न चोपस्थपायु शिवोऽहं न मे द्वेष रागौ न मे मदु नैव मे नैव मात्सल्यभावः mm -hmm. न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूप शिवोऽहं शिवोऽहं चिदानन्दरूप शिवोऽहं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूप शिवोऽहं शिवोऽहं चिदानन्दरूप शिवोऽहं न शङ्का न मे जातिभेदः पिता नैव मे नैव माता न जन्म न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोकं शिवोकं शिवो चिदानन्दरूपः शिवोकं कल्पो निराकाररूपो विभुक्त्वा सर्वत्र सर्वेन्द्रियाणा न ना, च सङ्गतं नैव मुक्तिर्नमेयः चिदानदरूपः शिवोऽकं शिवोऽहं चिदानदरूप 持吾恆持吾恆持吾恆持吾恆持吾恆